गणेशपुराण क्रीडाखंडम अयटी क उवाच त्र सनना दृष्टार रम्य पुष्पलात तस्थ पदमा सनगद नसाग्रण्य स्थलोचना गणेशध्यान प्राखी जप तत् एकाक्षरस्य मन्द्रस्य शुष्कद्रुम इवस्तिदा। स्थिता न फलं मूलं पर्णं कन्दं नमारुदं मारुतम् अस्ति निश्चला तत्र निर्वाणं परमं शिदा एवं सा द्वादशाब्दानि व्यतीतानि ततो विभुः कृपया विरभूत्प्रीतो गुणेशो गुणवल्लभः किरीडकुण्डलधरो दश बाहुस्त्रिशूलभृत बालचन्द्रशङ्खचक्रमुक्ता माला विभूषितः अक्षमाला च कमलं कस्तूरीतिलकम् दधद मध्ये नारायणमुखो दक्षिणे च शिवानः वामे ब्रह्ममुखशेषे पद्मासनगदो विदुः तत्फणामण्डलच्छायः कुन्दकर्पूरसन्निभः उवाच जगद्दम्बां तां यं ध्यायसि दिवानिशं गुणेशो गुणेश इदि सोऽहं ते गतः तव निष्ठां च भक्तिं च तद उग्रमवेक्ष्य च मम वक्ष्यामि प्रीदस्तव वरानने त्रयस्त्रिंशत्कोटिदेवेष्वधिको न च मत्परः गुणत्रयविभागाच्च गुणेश इदिमां विदुः त्रिदेहो गुणतश्चाकम् सन्तुष्टस्तपसा च वरं वरय मत्तस्त्वं यत्ते मनसि वर्तते असाध्यमपि दास्यामित्रैलोक्येऽस्मिन् महेश्वरी इति तद्वचनं श्रुत्वा हर्षगद्गदनिःस्वना उन्मील्य नयने उवाच जन्मनिष्ठा च तपोमन्द्रो करोऽपि च अद्य धन्यतमो जादो दृष्ट्वा पदपङ्कजम् अद्य सिद्धिपरा प्राप्ता यदो भवान् न काङ्क्षेण्यवरं कच्चित्तद्वाक्यं का न च लठ अधस्त्वं पुत्रदां याहि मम प्रीतिकरो भव निरन्तरं दर्शनं ते सेवनं पूजनं भवेद् यदि तस्य वच श्रुत्वा गुणेशो हर्षनिर्भरः उवाच गिरिजां तां स भविष्यामि सुतस्तव वाञ्छिदं पूरयिष्यामि लोकानां च तवापि च युणेशस्तामन्दर्धा नमगात्क्षणाद न देवी गुणेशं तं क्षणात् तदा अमन्यदमया दृष्टस्वप्ना सुगदः ईश्वरस्योपदेशेन दृष्टो देवो किलार्थदः न सोढुं विरहं तस्य शक्तास्मि दिव्यधाचिवा गुणेशप्रतिमां कृत्वा स्थापयामास सादरं प्रासादं कारयामासा चतुर्द्वारं सुशोभनम् गिरिजात्मजेदि तन्नामस्तापयामासुन्दरं सिद्धिक्षेत्रमिति ख्यादं भविष्यदि नृणामिह अनुष्ठानवदां सिद्धिर्भविष्यति न संशयः यदि दत्त्वा तत्र सम्पूज्य च प्रदक्षिणा नमस्कारान् कृत्वा च द्विजभूजनं दत्वा दानानि तेभ्यश्च गृहीत्वाशीर्वजो द्विजाद त्रिसन्ध्याक्षेत्रमगमद्योगस्तं ददृशे हरं शिरःपद्मं ज्ञथा उवाच निजवृत्तान्तमाज्ञां प्राप्य विभो उपदेशं मनोश्चापि द्वादशा द्वं कृतं तपः अवायुभक्षय स्वामिंस्तदस्तुष्टो गुणेश्वरः उवाच परमप्रीदो भावं ज्ञात्वा परं तवो दरेवतारम् तु करिष्याम्यचलात्मजे वाञ्छिते च करिष्यामि देवानां च तवापि च एवमुक्त्वा क्षणे न सौ विधाय स्थापयित्वा तां तवान्तिकमुपागता क उवाच एवं श्रुत्वा प्रिया वाक्यं प्रहृष्टमनसो धन्यासि गिरिजात्मजे साक्षाद्दृष्टो गुणे शस्ते गृहे सोऽवतरिष्यति हनिष्यदि महादैत्यं भूभारं च हरिष्यति इन्द्रादिलोकपालानां स्वपदानि प्रदास्यति ये तन्मम वजो देवि न च विस्मर्तुमर्हसि एवमुक्त्वा शिवो देव आलिलिङ्गशिवां तदा आनन्दाश्रूणि मुञ्चन्तौ रोमाञ्चिदतनू उभौ तिष्ठन्तौ परमाक्लादयुदा वम्बा महेश्वरौ इति श्रीगणेशपुराणे क्रीडाखण्डे क्षीरितमोऽध्यायः ॐ